श्रीहरये नमः अत एकादशोऽध्यायः ब्राह्मण उवाच अखोविदघोवितवादवाधान् वधस्यतो नातिविधां वरिष्ठः न ना सूरयो हि व्यवहारमेनं दत्वावमर्शेन सहामनन्ते तथैव राजान्नुरुहार्घमेधविधानविद्योर्विजृम्भितेषो न वेदवाधेषु हितत्ववाध प्रायेण शुद्धोऽनुसखास्ति सकास्ति न तस्य तत्त्वग्रहणाय साक्षात् वरीयसीरपि वाचः समासन् स्वप्ने नुरुक्त्या गृहमेधि सौख्यं न यस्य हेयानुमितं स्वयं स्यात् यावन्मनोरजसा पूरुषस्य सत्त्वेन वा तमसा चेतोभि आहूदिभि आतनोति निरङ्कुशं कुशलं चेतरं वा सवासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतषोटसात्मा बिभ्रदङ्गनामपि रूपभेतम् अन्तर्बहिष्वं च पुरैस्तनोति दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं पलमाव्यनग्धे आलिङ्क्यमाया रचितान्तरात्मा स्वदेहिनं संश्रुतिचक्रकूटः तावानयं व्यवहारस्तक्षेत्रज्ञसाक्षो भवति स्थूलसूक्ष्मः तस्मान्मनोलिङ्गमतो वधन्ति गुणागुणत्वस्य परावरस्य गुणानुरक्तं व्यसनाय जन्तो क्षेमाय नैर्गुण्यमतो मनः स्यात् यथा प्रदीपो कृतवर्तिमश्नन् शिखासधूमा भजति ह्यन्यथा स्वम् पतं तथा गुणकर्मानुभत्तं वृत्तिश्रयतेऽन्यत्र तत्त्वम् एकादशा सन्मनसो हि वृत्तय आकूतयः पञ्च धियोऽभिमानः मात्राणि कर्माणि पुरं च दासां वदन्ति हैगादशवीरभूमेर्गन्धाकृतिस्पर्सरस्रवांशे विसर्गरत्यर्थ य बिजल्पशिल्पाः एकादशं स्वीकरणं ममेति शय्यां महं द्वादश मेघ कर्मकाले एकादसामी मनसोविकाराः मनसो कोडिशश्च क्षेत्र ज्ञातो न न स्वतः सुयोः क्षेत्रज्ञयेता मनसो विभूतेर्जीवस्य माया रचितस्य नित्याः आविर्हिता क्वापि तिरोकिदाश्च शुद्धो विचेष्टेह्यविशुद्धकर्तुः क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयं नारायणो भगवत् भगवान् वासुदेवः स्वमाययात्मनि अवदीयमानः यथा निलस्थावरजङ्गमाना आत्मस्वरूपेण निविष्टयिषेत् एवं परो भगवान् वासुदेवक्षेत्रज्ञ आत्मे तमनुप्रविष्टः न यावदेनां तनुबृन्दरेन्द्रविधूयमायां वयुनोदयेन विमुक्तसङ्गोजितषत्सपत्मो वेदात्मतत्त्वं भ्रमतीहता वावदे तन्मन आत्मलिङ्गं संसारतापावपनं जनस्य यच्चोकमोहामयरागलोप वैरानुभन्तं ममतां विदध्ये भ्रातृव्यमेनं तत्तदब्रवीर्यम् उपेक्षयाध्येदितम् अप्रमत्तः गुरोर्हरेश्चरणोपासनास्त्रो जही व्यलीकं इति श्रीमद्भगवते महापुराणे पञ्चमस्कन्ते ब्राह्मणरहुगणसंवादे एकादशोऽध्यायः श्रीहरि नमः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराज के जय